श्रीहर्ये नमः अथ षट्सप्ततितमध्यायः श्रीशुक उवाच अधन्यान्यदपि कृष्णस्य शृणु कर्माद्भुतं नृप क्रीडा नरशरीरस्य यथा शिशुपालसखस्साो रुक्मिर्निर्जितः सङ्ख्ये जरासन्धादयस्तथा साल्वप्रतिज्ञामकरोत् शृण्वतां सर्वभूभुजाम् अयधा वीक्ष्मां करिष्ये पौरुषं मम पश्यताम् इति मोटप्रतिज्ञाय एवं पशुपतिं प्रभुम् आराधय मासर्पवांसो मुष्टिं सकृद्ग्रसन् संवत्सरान्ते भगवान् आशुतोष उमापतिः वर्णे चन्दयामास सार्वं शरणमागतं देवासुरमनुष्याणां गन्धर्वोरकरक्षसाम् अभेद्यं कामगं वव्रेसयानं वृष्णिभीषणम् तथेधिगिरिसादिष्टो मयः परपुरञ्जयः पुरं निर्माय साल्वाय प्राधात्सौभमयस्मयं स लब्ध्वा कामघम्यानं तमो धामधुरासधं ययौ द्वारवतीं साल्वो वैरं वृष्णिकृतं स्मरन् निरुद्यसेनया साल्वोमहत्या भरदर्शभा पुरीं बभञ्जो भवनान् अयुद्यानानि च सर्वसः सगोपुराणि द्वाराणि प्रसादालतोलिकाः विकारान् स विमानार्घ्यान् निभेतु शस्त्रवृष्टयः शिलाद्रुमः शासनयः सर्प आशार आच्छादिता दिशः इत्यर्ध्यमाना सौभेन कृष्णस्य नगरी भृशम् नाभ्यबध्यत संराजम् स्त्रिपुरेण प्रद्युम्नो भगवान् वीक्ष बाद्यमानानि रधारूटो महायसाः सात्यकिश्चारुदेष्णश्च शाम्भोर्क्रूरसहानुजहान् हार्दिक्यो भानुविन्दश्च गतश्च सुखशाणौ अपरे च महेष्म सारथयूतपयूतपाः निर्ययोर्धंशिता गुप्ता रते युद्धं साल्वानां यदुभिः यथा सुराणां विबुधैस्तो मूलं लोमहर्षणं दाश्च सौभपतेर्माया दिव्यास्त्रैरुक्मिणी सुतः क्षणेन नाशयामासनै शं तमयि वोष्णगुहो विव्यादपञ्चविंशद्या स्वर्णपुङ्कैरयो मुकैः सार्वस्य ध्वजिनी पालं सरैः सन्नत पर्वभिः सते न अदाटयशाल्बमेकैकेनास्य सैनिकान् दशभिर्दशभिर्नेत्रोन् वाहनानि त्रिभिस्त्रिभिः तदद्भुतं महत्कर्म प्रद्यम् नस्य महात्मनः दृष्ट्वा तं पूजयामाशो सर्वे स्वपरसैनिकाः रूपकरूपं तत् दृश्यते न च दृश्यते मायामयं मय कृतं तुर्विभाव्यं परैरभूत् क्वचित् भूमौ क्वचित् व्योम्नि गिरिमूर्ति जले क्वचित् अलातचक्रवत् भ्राम्यत् सौभं तत् दुरवस्थितम् यत्र यत्रोपलक्ष्येत स सौभः सख सैनिकः साल्वस्ततस्ततो मुञ्जन् सरान् सात्वतयूतपाः सरैर् पीठ्यमानपुराणीकसाल्वो मोह्यत्परेरितैः साल्वानीकपसद्रौघैर्भृष्णीवीराभ्रुसार्दिताः न तज्जतूरणं स्वं स्वं लोकद्वयजिगीषवः साल्वामात्योद्युमान्नाम प्रद्युम्नं प्राक् प्रपीडितः आसाद्यगतया मौर्व्या व्याहत्य व्यनधत् बली प्रद्युम्नं गतया शीर्णवक्षस्थलमरिन्धमम् अपोवाकरणात् सूतो धर्मविद्दारुकात्मजहान् लब्धसंज्ञो मुहूर्तेन कार्ष्णिः सारथिमब्रवीत् अहो असाद्वितं सूतयत्रणान्मेपसर्पणं न यधूनां कुले जातः श्रूयते रणविच्युतः विना सूतेन प्राप्त किं नु वक्ष्यभिषङ्घं य पितरो रामकेशवो युद्धासं यगभ्रान्तपृष्टस्तत्रात्मनक्षमं व्यक्तं मे कथयिष्यन्ती हसन्त्यो भ्रातृजामयः क्लैभ्यं कथं कथं वीर तवान्यै कथ्यतां रथे धर्मं विजानता युष्मन् कृतमे तन्मया विभो सूत कृश्रगतं रक्षेत् रतिनं सारथिं रथी एतत् विदित्वा भवान् मया पोवाहितोरणात् उपसृष्टः परेणेते मूर्छितो गतया हतः इति श्रीमद्भागवते महापुराणे दशमस्कन्ते उत्तरार्दे साल्ब्वयुद्धे षट्सप्ततितमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमहराजकी जय